अथैकपञ्चाशः सर्गः तम् जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् गुहः सन्तापसन्तप्तो राघवम् वाक्यमब्रवीत् इयन्तातसुखाशय्या त्वदर्थमुपकल्पिता प्रत्याश्वसि साध्वस्याम् राजपुत्र यथा सुखम् उचितोऽयम् जनः सर्वः क्लेशानाम् सुखोचितः गुप्त्यर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशा न हि ममास्ते भुवि कश्चन ब्रवीम्येव च ते सत्यम् सत्येनैव च ते शपे अस्य प्रसादाशंसे लोकेऽस्मिन्सु महद्यशः च पुष्कलौ सोऽहम् प्रियसखम् रामं शयानं सहसीतया रक्षिष्यामि धनुष्पाणिः सर्वथा ज्ञातिभिः सह नमेऽस्त्यविदितम् किञ्चिद्वनेऽस्मिंश्चरतः सदा चतुरङ्गम् ह्यनिबलम् सुमहत्सन्तरे महि लक्ष्मणस्तु तदोवाच रक्ष्यमाणास्त्वया नघा नात्र भीता वयम् सर्वे धर्ममेवानुपश्यता कथम् दाशरथौ भूमौ शयाने सहसीतया शक्या निद्रामया लब्धुम् जीवितम् वा सुखानि वा यो न देवासुरैः सर्वैः प्रसहितुम् युधि तम् पश्य सुखसंसुप्तम् तृणेषु सहसीतया यो मन्त्रतपसा लब्धो विविधैश्च पराक्रमैः एको दशरथस्यैष पुत्रः सदृशलक्षणः अस्मिन् प्रव्रजिते राजा न चिरम् वर्तयिष्यति विधवामेदि नीनूनम् क्षिप्रमेव भविष्यति विनद्य सुमहानादम् श्रमेणोऽपरता स्त्रियः निर्घोषोपरतम् तात मन्ये राजनिवेशनम् कौसल्या चैव राजा च तथैव जननी मम नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमा जीवेदपि हि मे माता शत्रुघ्नस्यान्वपेक्षया तद्दुःखम् यदि कौसल्या वीरसूर्विनशिष्यति अनुरक्तजना कीयर्णा सुखालोकप्रिया वहा राजव्यसनसंसृष्टा सा पुरी विनशिष्यति कथम् प्राणाराज्ञो महात्मनः विनष्टे नृपतो पश्चात् कौसल्या विनशिष्यति अनन्तरम् च मातापि मम नाशमुपैष्यति अतिक्रान्तमतिक्रान्तमनवाप्यमनोरथम् राज्ये राममनिक्षिप्य पिता मे विनशिष्यति सिद्धार्थाः पितरम् वृत्तम् तस्मिन् काले ह्युपस्थिते प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति राघवम् रम्य चत्वर संस्थानाम् संविभक्तमहापथा हर्म्यप्रासादसम्पन्नाम् गणिकावरशोभिता यथाश्वगज तूर्यनादनिनादिताम् सर्वकल्याणसम्पूर्णाम् हृष्टपुष्टजनाकुलाम् आरामोद्यानसम्पन्नाम् समाजोत्सवशालिनीम् सुहिता अपि जीवेद्दशरथो वनवासात् पुनर्वयम् प्रत्यागम्य महात्मानमपि अपि सुव्रतम् अपि सत्यप्रतिज्ञेन सार्धम् कुशलिना वयम् निवृत्तेवनवासेऽस्मिन्नयोध्याम् प्रविशेमहि परिदेवयमानस्य दुःखार्तस्य महात्मनः तिष्ठतो राजपुत्रस्य शर्वरीसात्यवर्तत तथा ही सत्य ब्रुवते प्रजाते नरेन्द्र सो नौ गुर सौहृद्गु मुमोच बाष्पमं व्यसनापीडि ज्वरातरो नाग इव व्यु इशे श्रीमद् राये वाक्य अयोध्या सर्ग